ॐ परमात्मने नमहे श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवते महापुराणे सप्तमस्कन्धे सप्तविंशोऽध्याय श्रोत उवाच ततः कृत्वा चिरां राजा आरोप्य चिन्तयन् परमेशानिं शताक्षिम् जगदीश्वरीम् पञ्चकोशान्तर्गताम् पुच्छ ब्रह्मस्वरूपिणीम् रक्ताम्बरफसुसागरम् नानायुधरामम्बम् जगत्पालनत्वरां तस्य चिन्तय मानस्य सर्वे देवासु वासवः धर्म प्रमुख समरा आगत सर्वे प्रोचुते राजन प्रोचोते राजोणु महाप्रभो साक्षात धर्मश्च भगवान स्वयं साध्या मरते लोकपाल सचारण नागा सिद्धा गुद्रा तथा शिनो एते चे बहवो विश्वामित्र तथैव च विश्वत्र विश्वत्रयेण यो मैत्रीम् कर्तुम् इच्छति धर्मतः विश्वामित्रे भीष्टम् आहर्तुम् सम्यगच्छ सम्यगच्छति धर्म उवाच महाराजन् सम्काशी धर्मोऽहं त्वं तमुपागतः क्षायदमसत्त्वाद्वै परितोषित परितोषितः हरिश्चन्द्र महाभाग प्राप्तश्चक्रोऽस्मि तेन्द्रिकम् वयाद्य भार्यापुत्रेण जितः लोकः सनातनः आरोह त्रिदिवं राजन् भार्यापुत्र समन्वितः सुदुप्रापं रैयन्ये जितमात्मीय कर्मभिः उवाच तृदमयं वचमृत्यो विनाशनम् इन्द्रप्रासुजदाकाशात् चिता मध्ये गते शिशो पुष्पवृष्टि च महती द्वन्द्वैश्व च समुत्थापुत्रौ राज्ञे तस्य सुकुमारे तनुस्वस्थ प्रसन्नः प्रीतमानसः ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं ददा स भार्य स्वच्छ दिव्यमालाम्बरावृतः स्वस्थ सम्पूर्ण हृदयो उदा परमयावृतः बभूव तक्षणादिन्द्रौ गोपं चैवमभाषत सभार्य त्वं स पुत्र च सल्लोकं सद्गतिं पराम् समारोहे महाभाग जानाम् कर्मणा फलम् हरिश्चन्द्र उवाच देवराज स्वामिना कृत्वा निष्कृतिं तस्य न रोक्षे वै सुरालयम् अवाच त एवं भाविनं क्लेशम् अवगम्यात्ममायया आत्माश्व पचताम् एतौ दर्शितं तच्च प्राकणम् इन्द्रवाच श्वार्थे यत् परं स्थानं समस्तैर्मनुजैर्भुवि स्थानं पुण्यकृताम् हरिश्चन्द्रवाच देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे मच्छोकमग्नग्न मनसः कौसले नगरे नरः तिष्ठन्ति तान्पाय तान् पेवं कथं यास्या महं दिवम् ब्रह्मरत्या सुरापानम् गोवध श्रीवधसध सुलम् मेभिर्मत्यागात् उदाहृतं भजन्तं भक्तमत्याजं त्यजतः स्यात् कथं सुखम् न प्रयास्यामि तस्माश्चक्रिवम्बय यदि ते सहिता स्वर्गं मया यान्ति सुरेश्वर ततोऽहम् अपि यास्यामि नरकं वापि तैतः इन्द्रवाच बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप कथं संघात भोजन्तं गोप स्वर्गमभि हरिश्चन्द्रवाच भक्ते चक्रेन्द्रभोराजम् प्रभावात् प्रभुते ध्रुवम् च महायन् हि कर्म पूर्तम् करोति च तच्च तेषां प्रभावेण मया सर्वम् अनुष्ठितम् उपदा दक्ष्ये तानहं स्वर्गलिप्तय तद्मज्जन्म देवे च किञ्चिदस्ति तत्तम् इत्यमथो जप्तं सामान्यं तैतदस्तु नः बहुकालोपभोजं च फलं मम कर्मगं तदस्तु दिनमप्येकं तैस्तमं तत्प्रसादतः श्रुतवाच एवं वशि भविष्यसेत्युक्त्वा शक्रस्त्री प्रसन्नचेता धर्मश्च श्वामित्रिजः गत्वा तु नगरं सर्वे चतुर्वचन्द्रस्य निकटे प्रोवाच्य विबुधाधिपः आगच्छन्तु जना क्षीरम् स्वर्गलोकं सुदुर्लभम् धर्मप्रसादार्थं प्राप्तं सर्वैःष्माभिरेव तु हरिश्चन्द्रोऽपि तान् सर्वान् नगर जनान्नगरवासिनः प्रह राजा धर्मपरो दिवम्भारोह्यतामिति श्रुतवाच छदिन्द्रस्य वच श्रुत्वा प्रीता तस्य च भूपतेः ये संसारेषु निर्विण्णा ते धुरं सश्रुतेषु वै कृत्वा प्रविष्टमनसो दिवम्भारूरु जनः ्रीमादेवरमारूढास् सर्वे भास्कर विग्रहास् तदा सम्भूतः शास्त्रे हरिश्चन्द्रश्च पार्थिवः राज्ये विषये च तनयम् रोहिताख्यम् महामनः अयोध्याख्ये पुरे रम्ये रुष्टपुष्टजनान्विते तनयम् सुहृ चापि पतिपूज्याभिनन्दते पुण्येन लभ्याम् विपुलाम् देवाधीनाम् सुदुर्लभाम् सम्प्राप्यते मथुराम् एष महीपतिः आशान् चक्रे कामगमे क्षुद्रघण्टा विराजते ततः तर तर्हि -तर समालोक्य शोकमन्त्रम् तदा जगौ दैत्याचार्यो महाभागः सर्वशास्त्रवित शुक्रवाच अहोदीक्षास्यम् अहो धनफलं यदा गतो हरिश्चन्द्रो महेन्द्रस्य सलोकतां श्रुतोवाच एतस्य सर्वमाख्यातं हरिश्चन्द्रस्य चेति यत् श्रुणोति च दुःखातः स सुखं लभतेन् वहं स्वर्गार्थी प्राप्नुया श्रुतार्थे श्रुतमाप्नुयात् भार्यार्थि प्राप्नुयात् भार्यां राज्यार्थे राज्यमाप्नुयात् इति श्रीमद्देवी भागवते महापुराणे चादृशीपायां सप्तमस्कन्धे हरिश्चन्द्राख्यानश्रवणफलवर्णनं नाम सप्तविंशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु